बालमोदिनी महात्मानां भूमिः एषा लेखिका सम चिद्रूपिणी रेवरेण्ड् आवरह अमेरिकीयः कश्चन धर्मगुरुः सः भारतम् आगत्य परिसरे स्थितान् कांश्चन निर्धननिरक्षरान् क्रिस्तमदीयान् अकरोत् प्रयत्नेन एतां वार्तां ज्ञातवान् कश्चन पण्डितः तं दृष्ट्वा अपृच्छत् किं भवता हिन्दुधर्मग्रन्थानाम् अध्ययनं कृतम् इति न इति अवदत् आवरः तदा पण्डितः अवदत् भवता हिन्दुधर्मस्य निन्दा क्रिस्तमतस्य प्रशंसा च बहुधा क्रियते वास्तवं स्वरूपम् अवगत्य खलु निन्दा करणीया आदौ अवगन्तुं प्रयासः स्यात् ततः एव अवगुणाः प्रकाशनीयाः इति एतत युक्तम् अमन्यत आवरह ततः सह हिन्दुधर्मस्य अध्ययने प्रवृत्तः अभवत् तेन संस्कृतं मराठी च अधीते एकनाथज्ञानेश्वरतुकारामादीनां साहित्यं तेन अवगतम् भारतीयं तत्त्वज्ञानं तस्मिन् महत् परिणामम् अजनयत् बहून् तत्त्वज्ञानसम्बन्धान् ग्रन्थान् आङ्ग्लभाषया अनूदितवान् अपि सः तदह तेन अमेरिकीयायै मातृसंस्थायै यत् पत्रं लिखितं तत्तु नितरां महत्त्वपूर्णं सः लिखति भारते अद्यावधि शतशः सहस्रशः वा क्रिस्ताः जन्म प्राप्तवन्तः अग्रे अपि तादृशाः महापुरुषाः जन्म प्राप्नुयुः अतः अत्र क्रिस्तमदप्रचारस्य न कापि आवश्यकता तस्मात् भारते स्थगनीयं तत् भारतं सत्यधर्मचिन्तनयोः आकारमस्ति अतः सर्वैः अपि क्रैस्तैः स्वमतप्रचारं परित्यज्य अत्रत्यं ज्ञानं प्राप्तुं प्रयासः करणीयः मया मम मतप्रसारकवृत्तिः परित्यजते अमेरिकादेशे अष्टलक्षमिता या मम सम्पत्तिः अस्ति ताम अहं पुणेनगरस्थाय भारतीयेतिहाससंशोधनमण्डलाय अर्पितवान् अस्मि एतस्मात् ग्रन्थप्रकाशनं प्रवर्तताम् इति मम इच्छा